श्रीमद्भागवतमहापुराणं चतुर्षस्कन्ध अथ त्रिंशोऽध्यायः विदुर्वाच ये त्वया भीता ब्रह्मसुता प्राचीनबर्हिषः ते रुद्रगीतेन हरिं सिद्धिमापो प्रतोषकां किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथ प्रियपार्श्ववर्तिनः आसाद्यदेवं देवं गिरसं यदीक्षया प्रापु परं नूनमथः प्रचेतसा मैत्रेवाच प्रचेतसोऽन्तरुदौ पितुरादेशकारिणः जपि यज्ञेन तपसा पुरञ्जन्मतोषयन् दशवर्षसहस्रान्ते पुरषस्तु सनातनः तेषा माविर्भुत्कृच्छ्रं सान्तेन समियन् रुचा सुपर्णस्कन्धमारूढो मेरुसिंगमिमाम्बुदः पीतवासामणिग्रीव कुर्वन्वितिमिरादिश काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो का विलसद्गिरीटः अष्टायुधैरनुचरे मणिभीसुरेन्द्रैरासेवितो गरुणकिन्नरं गीतकीर्तिः पीनायताटभुजमण्डलमध्यलप्या स्पर्धिच्छया परिवृतो वनमालयाद्यः बर्हिस्मतपुरस आह सुतान् प्रपन्नान् पर्जननाधृतयासगृणावलोक श्रीभगवानुवाच वरं वृणद्वं भद्रं वो यूयं वे नृपनन्दनाः सौहार्देना पृथग् यो नुरस्मते सन्ध्यायां यस्मान्नुदिनम् नरः तस्य भ्राते स्वात्मसाम्यं तथा भूतेश सौहृदम् हे तु मां रुद्रगीतेन सायम् प्रात समाहिताः तु वन्त्यहम् कामवरान् दास्ये प्रज्ञां च शोभनाम् यद्यूयम् पितुरादेशम् अग्रहेश्च मुदान्विताः अथो वा उशतीकीर्तिर्लोकाननुभविष्यति भविताविश्रुतपुत्रोऽन्वमो ब्रह् ब्रह्मणो गुणैः जायेतामात्मवीर्येण त्रिलोकीं पूरयिष्यति कण्डो ब्रह्मलोचया लब्धा कन्याकमलोचना तां चापविद्धां जगृहुर्भुरुहालुपनन्दनाः छा मायामुखे राजा सोमापि सुवर्षिणिं देशनिं रोचमानायान् विदधे सदयान्वितः प्रजाविसर्ग आदिष्टा पित्रा मामनुवर्ततां तत्र कन्यां वरारोहां तामुद्भत्सामाचिरम् अपृथग्धर्मशीलानां सर्वेषां वसुमध्यमाम् अपृथग्धर्मशीलेयं भूयात् पत्न्यर्पिताशयां दिव्यवर्षसहस्राणां सहस्रमहतोजस शहस्त्रा भोमान् भोक्षत भोगान् वै दिव्या सानुग्रहान् भवा अथ मय्यनमाम् अथ मय्य न पायिन्यां भक्त्या मद्धाम निर्वेद्य निर्यादतः गृहेष्वाविशतां चापि पुंसां कुशलकर्मणां मद्वार्ता यातिजामानां न बन्धाय गृहामताः नव्यवधृतये जज्ञो ब्रह्मैतद्ब्रह्मवादिभिः न मुह्यन्ति शोचन्ति न शिष्यन्ति यतो गताः मैत्री एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलय प्रचेतस तर्सन् तद्दर्शनध्वस्ततमोरजोमला गिरा गृहं गद्गदया सुहित्तमम् प्रचेतस उचुः नमो नमः क्लेशविनाशनाय निरूपितोदारुणाह्वयाय मनोवचो वेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः शुद्धाय शान्ताय नमः स्वनिष्ठान्तयाम् मनश्य पार्थं विलसद्वयाय नमो जगस्थानलयोदयेशो गृहीतमाय गुणविग्रहाय नमो विसृद्धसत्त्वाय हरे हरिमेधसे वासुदेवाय कृष्णाय प्रभुवे सर्वसात्वताम् नमः कमलनाभाय नमः कमलमालिने नमः कमलपादाय नमस्ते कमलेक्षण कमलकिङ्कल् किञ्जल्कपिशङ्गां मलवाससे सर्वभूतानिमासाय नमो युक्ष्मये साक्षिणे